षष्टिम् सहस्रानवादिम् च गौरुमहारुषमे श्रु दद्महे उष्ट्रायस्य प्रवाहणो मधूमन्धोद्भिर्दश वस्मारथस्य निजेहीडते दिव ईषमानवसृशाः एष यषाय मामहे शतम् त्रीणि शतान्य सहस्रादश गुणा वच्चस्वरे भवत्यस्व वृक्षेण पक्वेश गुनाः नष्टे जिह्वा जर्तरे दिक्षुरो न भूयोसो मनीषा वृषाकात स्वगोविदम् वसुविदम् देवत्रे माम् माषम् श्रेमेः शर्णागेरस्तारम् राज्ञो विश्वजनेरश्च यो देवो मध्या अति वैश्वानरस्य सुष्टो देव परिच्छिन्नक्षेम मकरोत्तमासनमाचरन् कुलायम् ग्रन्वन् गौरव्यः पतिर्वदतिजाजया कतरत्तधिमन्थाम् परिश्रुतम् जायापतिम् विपृच्छति राष्ट्रैराज्ञः परीक्षिताः अभीव स्वप्रजीः दयवः पक्वः पथोऽपिलम् दृढः स भद्रमेधातिराष्ट्रे राज्ञः परीक्षिताः इन्द्रः कारुमबोबुधमुत्तिष्ठ विजराजनम् ममे दुर्गस्य चक्रभिसर्वे वृणादरिः इहप्रजाजध्वमिहाश्वा इह पूरुषाः इहो सहस्रादक्षिणोऽपि पोषा विषीदति ेमा इन्द्रयागोरिषण्मो आसाङ्गोपरीरिषत् मासाममित्रयुर्जन इन्द्रमास्तेन यीषत उपनो न रमशिशोक्ते नवजा सा भयम् भद्रेणवजा सा वयम् मनादसिद्धनो गिरो न विश्येम कदाचन यः सभेदो विदर्त्यः सुत्वा यज्ञाथो दोषः सूर्यन् कामो निषादशस्तर्देवाप्रागकल्पयन् योजायास्तर्यर्थोर्षते ज्येष्ठप्रचेतास्तदा सुरधराविति यद्भद्रस्य पुरोषस्य पुत्रो भवति तादृशिः तद्भिप्रोब्रवेदतनुम् धर्मः वजाः यश्च पणिघो ज्येष्ठ्यो यश्च देवा पराशुरिः धीराणाम् शश्वतामहम् तत पाविते शुष्म ये च देवाय यन्ताथो ये च परादरलिः सूर्योदिवमिव गत्वाय मघवानोऽविरक्षते ये नास्ताच्छो अनभ्यक्तो अमनिमो अब्रह्मा ब्रह्मणः पुत्रस्तोताकल्पेषु संयेता जलाक्ताक्षःसुभ्यक्तः सुनिवत्सु हि अन्यवाः सुब्रह्मा ब्रह्मण पुत्रस्तोताकल्पेषु संयेता अप्रपाणा च अयभ्या कन्या कल्याणी दोता कल्पेषु संहिता सुप्रपाना च मे सन्ता देवान् सुप्रतदिश्रयः सुयभ्या कन्या कल्याणी तोतकल्पेषु संयता परिवृक्ता च महिषे स्वस्या च युधिङ्गामः अणाशुरस्यायामी तोता कल्पेषु संहिता वा वाता च महिषी स्वस्या च युधिङ्गामः स्वाशुरस्थायामी तोता कल्पेषु संहिता यदिन्द्रा दोता त्वम्रे साक्षम् अधवन्दम् रम् हर्याकरोः त्वम्रोहिलम् या स्वाद्यक्षिराः यः पर्व धान्यदधाव्यो अपो व्याह इन्द्रो यो वृत्रः नहम् तस्मादिन्द्रोऽस्तु ते पृष्ठम् धावन् ब्रह्च्चेश्रवसमभ्रुवन् स्वस्य श्वजेत्राजेन्द्रमावाहसुस्रजम् हे त्वाश्वेताजे श्रवसौहार्यो युञ्जन्ति दक्षिणम् पूर्वानमस्य देवानाम् विभ्राजिन्द्रमहीयते येताश्वाप्लवन्ते प्रदेपम्प्रादेसुत्वनम् प्रासामेकाहरिग्निका परिज्ञिके किमिच्छसि साधुम् पुत्रम् हिरण्ययम् वाहदम्बरास्यः तत्रामोऽस्ति श्वशिं सपाः परित्रयः मृताः गवः शृङ्गन्धमन्त आसते अयम् महाते अर्वाहः स यच्छकम् सखाघदेवो भीत्यागोजीर्ति पुमाङ्कुस्ते निमिच्छसि कल्पबद्धवयोजिते ब्रद्धवो अघायिते अजागारके विका अश्वस्य मारो गोचपद्यके श्रेणीपती सा अनामयोपजिष्पिता कोर्यबहुलिमायुषोनि कोऽसिद्याप्तयाः को अर्जन्यास्तयाः कः काश्च्याप्पयाः हेतम् वृच्छ गुहम् वृक्ष गुहाकम्पत्पदम् वृक्ष यवालोयति स्वभिक्कुभिः रसद्रगोमठाः प्रति शृङ्गमुत्पन्न माषखा नो विदन् वशायाः पुत्रमायन्ति हिराह वेतुमयाद अथो यियन्नियन्निति अथो <स्थाँगा> यियन्निति अथोश्वास्थिरोऽभवन् उयञ्जकांशालोकका आमीनो निति भज्यते तस्यानुमिभञ्जनम् परोणायादिवस्वाभिः शतम् वाभारजीशवाः शतमाश्वाहैरन्ययाः शतम् रक्षाहैरन्ययाः शतम् कुथाहिरण्ययाः शरम् निष्काहेरण्ययाः अह लघु समर्तक सफेन इव वोहते निष्ठानाव गृह्यति इयमश्चम्मम् दोरिति ते वृक्षास्थ तिष्ठति पाकबलिः सकबलिः अश्वत्थखीरः भवोरदुपरम शयो हतैव या पपोरोषः अतो अहमित्याम् पोषाकम् अध्यर्थश्चप ह्रस्वदाः दौव हस्निनोदति आदलाबुकमेकम् अलाबुकम् निखातकम् कर्करिको निखातकः तद्वा तमुन्मधायति कुलायम् गृणभाजति उग्रम् वा निषदादलम् न कये क येषाम् तुन्दुभिहनत् यशीयम् हनत्कथम् हनत् देवी हनत्पुहनत् पर्यागारम् पुनः हिरण्यत्येगे अब्रवीत् गौवाय शिशवः वितातौ किरणौ द्वौ तावापिनश्चिपूरोषः न वै कुमारितत्तथा यथा कुमारिमन्यासे मातुश्चिकिरणौ द्वौ निवृत्तः पुरोषानुते न वै कुमारितत्तथा यथा कुमारिमन्यासे निगृह्य कर्णकौर्दौल्या यच्छसि मध्य न वैः कुमारिदत्तथा यथा कुमारिमन्यसे उत्तानायैशयानायै तिष्ठन् देवावगूहसि न वैः कुमारिदत्तथा यथा कुमारिमन्यसे स्लक्ष्णायाम् श्लक्ष्णीकायाम् श्लक्ष्णामेवावगोहसि न वैः कुमारितत्तथा यथा कुमारिमन्यसे अपस्रक्षमिव भ्रंसदन्तर्लो मति त्वदे न मैः कुमारि दत्तथा यथा कुमारिमन्यासे इहेच्छ प्रागपाकुद गधरागरालागुद भत्सथा इहेच्छ प्रागपाकुद गधराग् वत्सः पुरोषन्दासने इहेच्छ प्राक् पागुद गधराग स्थालीपाको विलीयते इहेच्छ प्राग्धराक्सये पृथुली इहेच्छ प्राग् गधरागाश्चे लाह निली इहेच्छ प्राग् पादुतगधरागश्लीली पृथ्वलीलीषते भुजित्यभिगादस्सलित्यमक्रान्तः फलित्यभिश्चेदः बन्धुभेवाहननाभ्याञ्जलि कोशबिलेरजनिग्रन्थे धानमुपानहि पादम् उत्तमाञ्जनीमाञ्जन्यानुत्तमाञ्जनीन्वर्मान्यात् अगोनिपृषादान्यस्मर्थपलाशम् इतावकस्मारोस्मार्णशभोगो शभोगरितरोधामो दैव ध्वर्यो क्षिप्रम् प्रचर सुसर्त्यमिद्धा नस्यसि प्रखुरसि पत्नीयदृश्यते पत्नीयक्षयमानाचरितरोथामो हो दैव होदाभिष्टिमेतजलि तरोथामो हो दैव आदित्याहचलितलङ्गेराब्दादक्षेणामनयन् जलितः प्रत्यायम् सामूह जलितः प्रत्यायन् ताह्मजलितम् नः प्रत्यागृह्णम् सामोह जलितम् नः प्रत्यागृह्णः अहानेतरसन्न विचेतनानि यज्ञमशीर्पलसन्न पुरोधवामः उदर्श्वेदाशोपत्या उदपद्याभिर्यविष्टः उदेमाशमानम् पिबे आदित्या रुद्रावसा हस्ते नोत इदम् राधप्रदे लब्देश्यङ्गिरः इलम् राधो विभो प्रभोदिदम् राधो गृहत्पृथो देवादहत्पासो रन्तद्वा अस्तु सुचेतनम् युष्मा अस्तु दिवे दिवे प्रत्येगाविभाजत त्वमिन्द्रीणाहम् इयम् वित्रायस्तुवदेव सुवयम् दुरस्वशेवाः स्वमिन्द्रकपोधायच्छिन्नपक्षाय वञ्चते श्यामाकम् पक्मम् वीरो च पार स्वाग्रयोद्बहुः अलङ्करो वा मयीदि त्रिधा बद्धोपरक्षया यदस्याहम्बुभेद्यात्पृथस्थोलमुपादसत् मुस्काविदस्याय जतो गोषभेषकुलायीव यदा स्थूले न सयसाणो मुस्कामुपावधीत् विश्वन्दामस्यावर्धनविष्कादास्वेवजप्रभौ यदल्पि काश्वकर्करम् धोके भज्यते पाशम् यद्देवासो ललामागम् प्रवेष्टेमि न मादेशुः सकुलादे दृश्यते नादे सत्यश्चाक्षिभवो यथा बाणज्ञातृप्लस्थितो गणरृतस्थानासरन् शक्तिकानना स्वतमशाकम् शक्तुमर्ज्याम महानज्ञो लोकलमर्जिकामञ्जब्रवीत् यथा तव वनस्पदे निरघ्नम् जिदथैव ते महानज्ञोपभ्रोदेभ्यष्टोऽ देवनस्पदे महानज्ञोपभ्रोदेभ्रष्टोऽथाप्यबुवः यथा वयोनिदाह्य स्वर्गेण मवदश्यते महानज्ञोपभ्रूते स्वसापेशीकम् वसाहः यच्छम् बलस्य वृक्षस्य सोऽर्पे शोर्पम् भजे महि महानग्नीकृ धावति अयन्न विद्मयो विरस्येष्णाः विधाने काम् महानग्ने महानग्नम् धावन् दो धावति इमास्तदश्च कालक्षय भमामध्योतनम् सुरेवस्त्वा महानग्ने सुभजे महादः साधुशोदनम् वसन्ते वरो न वरे वशादग्धालिम् प्रसृततो कृतम् फरे महान्वै भद्राय ग्धते महतः साधुशोदनम् कुमालिकापिङ्गलिकार्दभस्मा गृहागाति महान् मे भद्रो बिल्बो महान् भद्रमुदुम्बराः महाक्तबाधते महतः साधुशोदनम् यः को लिका वसन्तम् पीवलीलभेत् तैलकुण्डमिमाङ्गुष्ठम् रोचम् तम् समुद्धरेत् यद्ध प्राचेरयघण्डोलो मण्डोलधानिजेः हता इन्द्रस्य शत्र वः सर्वे बुधया शरः अमृन्न कृतमुदाचलोदया चलरवाजसादये यस्यज्ञः पुत्रमाख्यापयोद इन्द्रम् सपाधा ह्यपुहुमापीतये रक्राकादशम् ज्योनश्वस्य वाचिनाः सुरभिनामुखाकरत्र नायोशत् सुता सोमधो मत्तमाः सोमा इन्द्राय मन्दिनाः पवित्रावङ्गाक्षरम् देवाम् गच्छन्तु इन्दुरिन्द्राय पवत इति देवासोऽ ब्रुवन् पाचस्पजर्मखस्य देवि स्वस्य एषा नवो जयसा सहस्राधारपवते सुद्रो सो वाचमेङ्कायः सोमपते रहीनाम् सखेन्द्रस्य दिवे दिवे वत्तमिन् दशत्याधमम् दमकस्नेहेत्त दत्समापश्यम् विशो नेतरम् रमुखः परेणद्योऽहं सुमत्याः नभो न कृष्णमापदस्थिवाम् समिष्यामिव वृष नो युध्य राजौ पधद्धत्सोऽसुमत्यामुपस्थेधारयत्तम् यद्विषाणः विषादे वीरभ्या आदरम् बृहस्पति न विजेन्द्रः सहाहे त्वम् हत्यसप्तभ्यो जायमानशत्रोभ्या हशत्रोरिन्द गोद्यावा पृथिवी अन्दाविन्दो विभुमभ्य भुवनेभ्यन् धा त्वम् हत्यत प्रतिमानमो जागरेण ग्रन्थसितो जगन्थ त्वम् षष्ठस्यावादि गायिम् दशच्चेदाविन्दः त्वमिन्द्रम् वाजयामसि महे वृत्रायहम् दवे सवृषा वृषभो भो वजे इन्द्रः सदामाने कृतकोजिष्ठः स मदेहितः यन्ने श्लोके सौम्यः विरापज्ज्वलसम्भृदः सबलोनपक्ष्युतः रक्षदिश्वास्त्रतः महा इन्द्रायवोजसा पर्जन्या वृष्टिमा एव स्तोमे वत्सस्य वावृधे प्रजामृतस्य विप्रादभयद्भरम् त्वबन्नायः निर्गाहृतस्य वाहसा कण्बायिन्द्रञ्लक्लस्थोमेर्यज्ञस्य साधनम् जामिप्रोवदायोधम् आ नो नमश्विना युवम् वत्सस्य गन्तमवासे आस्मै यच्छतमभृतम् न तच्छिर्यो युगञ्जादयः यदन्तरिक्षे म् साम् यश्विना विप्रासः परिमामृषुः एवेत्कान्वस्य बोधतम् अयम् वाम् धर्मोऽश्विना स्तोमेन परिषुचते अयम् सो मामधो मान्वाजिनीमसो येन वृत्तञ्चके तथः यजप्सु यद्वनस्पतो यदोषाधेशपुरतम् ससा कृतम् ेनमाविष्टमश्विना यन्ना सत्याभुरन्यथा यथा एणवि यजथाः अयम् वाहम् वत्सोमतिभिर्न विन्धते हविष्मन्तम् हि गच्छाथः आलोनमश्विनार्यसि स्तोमम् तिकेतवामया आसोमम् मधो मत्वमम् घर्मम् सिञ्चातसर्वणि आ नूनम् रघुवर्तनिम् रथम् ज्यष्टातोश्विना आवाम् स्तोमा इमेव मनपो नजुच्य वीरत यदद्यहान्ना सत्यर्थैराजुच्य भीमहि यद्वाणीर्विरश्विनेवेत् काङ्गस्य बोधतम् क्षेवामुदयद्यश्व दीर्घताव कृषेयद्वा मेन्यः सादनेष्मे तथाविनाचेत यथा यातम् सद्यष्व उतनः परस्प भूतम् जत्वा मुदनश्च नो वा मर्तिस्त्वकायत न यदिन्द्रेण सरथीयाथोऽश्विना यद्वा वायुनाभवा सोऽसा यदादित्येभिर्लघुभिः सजोषसा यद्वाभिस्माद्विक्रमणे सुतिष्ठतः यदद्याश्विना वहम् हुवेयमाजसादये यत्प्रत्स सर्वने सहस्तश्रेष्ठामपि मानवः आलोनय्या तमस्विनेमाहव्यामेवाम्हिता इमे सोमासो अधिकङ्गेषु वामस यन्ना सत्यापरागे अर्वाक्येरस्तेभेषजम् तेन नोऽलम् विमलाय प्रचेतसा चिवत्साय यच्छतम् अभत्स्यप्रदेव्या साकम् वाचाहमश्विनोः यावद्देव्या मतिम् विराजिम् मर्देभ्यः प्रबोधयोषो अश्विना प्रदेवि सोमृतेमहि प्रयज्ञहोतरा न शर्क्रमदायश्रवो बृहत् यदोषो या यासे भानुनासंसूर्येणरोचुरे आहायमश्विना रथ ेतासोऽहंसभो का व्रूधभिः यद्वा नीरनो शतप्रदे वयन्तोऽना प्रद्युम्नाय प्रसवशे प्रदृशाध्याय शर्मे प्ररक्षाय प्रचेतसा यन्नोऽनम् देभिरश्विना पितुर्यो ना यद्वा सुम्येभिरुद्ध्या अम्बामृसम् वयमत्याहो वेमृसयामश्विना सङ्गलिङ्गोः यः सोर्याम् वहदिवन्धराय गर्ग्यः सम्पुरतमम् रसोऽयम् युवम् श्रियामश्विना देवतान् दिवो नुपातामनसस्वीभिः श्रिवो बोरभिवृक्षः सजम् देवहम् त्रियत्य गुहासो रथे वा को वामत्या रातः व्यभूतये वा सुतरपेयाय वाङ्कैः हृदस्य वा मनुषे पूर्व्याय नमा ये मानो अश्विना वर्तते हिरण्ययेन पुरो यज्ञम् न सत्योपायातम् विवासयन्मथो नः सोम्यस्य तथा कोरत्नम् विधे जलाय आनो यातम् दिवो अर्था पृथिव्याहिरन्य सुमृतार्थेन वायमन्द्यजन्तः संयद्धेनाभि पूर्व्या मुभये स्वस्मे नरो यद्वामश्विना स्वामभावन् सधस्तो सोऽहयद्वाम् समनापरवृक्षेशेयमस्मे सोमधिर्वाजलग्ना वश्यतम् जरिदानम् इवम् हस्वितः धूमतेरोषधीर्या वामधूमन्नो भवध्वम् दरिक्षम् क्षेत्रस्य पर कर्म धूमान्नो अस्परिष्यम् अन्वेन जरेम शौणकशाखा सम्पूर्णम् सहस्रम् संसारुदयेकविष्टौ सर्व Shantirantarikshamsantir Dhyoshantirapashantir Oshatayashantir Vakaspatayashantir Vishwemadevashantir Sarveme devashantir Shantirantarikshantir Vakaspatayashantir शान्तिः सर्वशान्तेभिः समायामोहै यदिहघोरै यदिहघोरै यदिह पापं तच्छान्तं तच्छिवं सर्वमेव